अथ पञ्चमः सर्गः सर्वा पूर्वमियम् येषामासीत् कृत्स्ना वसुन्धरा प्रजापतिमुपादाय नृपाणाम् जयशालिना येषा स सगरो नाम सागरो येन खानितः षष्टिपुत्रसहस्राणि यम् यान्तम् पर्यवारयन् इक्ष्वाकूणामिदम् तेषाम् राज्ञाम् महदुत्पन्नमाख्यानम् रामायणमिति श्रुतम् तदिदम् वर्तयिष्यामः सर्वम् निखिलमादितः धर्मकामार्थसहितम् श्रोतव्यमनसूयता कोशलो नाम मुदितस्फीतो जनपदो महान् निविष्टः सर यूतीरे प्रभूतधनधान्यवान् मनुनामानवेन्द्रेण या पुरी निर्मिता स्वयम् आयतादश चद्वे च योजनानि महापुरी श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा राजमार्गेण महता सुविभक्तेन शोभिता मुक्तपुष्पावतीर्णेन जलसिक्तेन नित्यशः ताम् तु राजा दशरथो महाराष्ट्रविवर्धनः पुरीमावासयामास दिवि देवपतिर्यथा कपाटतोरणवतीम् स्वविभक्तान्तरापणाम् सर्वयन्त्रायुधवतीमुषिताम् सर्वशिल्पिभिः सूतमागधसम्बाधाम् श्रीमतीमतुलप्रभाम् उच्चाट्टालध्वजवतीम् शतघ्निशतसङ्कुलाम् वधूनाटकसङ्घैश्च संयुक्ताम् सर्वतः उद्यानाम् रवणोपेताम् महतीम् सालमेखलाम् दुर्गम्भीरपरिखाम् दुर्गामन्यैर्दुरासदा वाजिवारणसम्पूर्णाम् गोभिरुष्ट्रैः खरैस्तथा सावन्तराजसङ्घैश्च बलिकर्मभिरावृता नालादेशनिवासैश्च वणिग्भिरुपशोभिता प्रासादैरत्नविकृतैः पर्वतैरिव शोभिता कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावती चित्रामष्टापदाकाराम् वरनारीगणायुता सर्वरत्नसमाकीर्णाम् विमानग्रहशोभिता ग्रहगाढामविच्छिद्राम् समभूमौ निवेशिता शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदका द्वन्द्वभिर्मृदङ्गैश्च वीणाविः प्रणवैस्तथा नादिताम् भृशमत्यर्थम् पृथिव्याम् तामनुत्तमा विमानमिव सिद्धानाम् तपसाधिगतम् दिवि सुनिवेशितवेश्माम् ताम् नरोत्तमसमावृता ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् शब्दवेध्यम् च विततम् लघुहस्ताविशारदाः सिंहव्याघ्रवराहाणाम् मत्तानाम् वने हन्तारो निशितैः शस्त्रैर्बलात् बाहुबलैरपि तादृशाणाम् सहस्रैस्तामभिपूर्णाम् महारथैः पुरीमावासयामास राजा दशरथस्तदा तामग्निवद्भिर्गुणवद्भिरावृतान् विजोत्तमैर्वेद षडङ्गपारगैः सहस्रदैः सत्यरतैर्महात्मभिर्महर्षि कल्पैर् ऋषिभिश्च केवलैः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चमः